मुद्गलपुराणं खण्डं सिक्स् विकटचरितम् अध्यायं फोर्टि विष्णुवादिपराधीनतादर्शनम् श्रीगणेशाय नमः आदिशक्तिरुवाच तत्रागत्यमयूरेशो दृष्ट्वा मूर्तिस्थितं प्रभुः सिन्धुं क्रोधसमयुक्तश्चूर्णयामास तदो ततोऽधिभयसंयुक्ता मुनयः शङ्करादयः किं भविष्यदि दैत्येभ्यः श्रुत्वा वार्तां बभूविरे तत्रापि माययायुक्ता दैत्येन्द्राश्च समाययुः हन्तुं शिवसुतं नित्यं तान् जखान मयूरभः तदो विघ्नविनाशार्थमिन्द्रयत्नं समारभद शङ्करस्थं मयूरेशो बभञ्जक्रोध संयुधः तद इन्द्रसुरेशानायर्मयूरेशमयोधयद तं जित्वा गणराजस्तु स्वपुरस्थो बभूवः शक्रय ऊजुः कारागारे स्थिता देवा सिन्धोऽस्ते योद्धुमाययुः कथं देवि वदाशुत्वं संशयस्यापनुत्तये आदिशक्तिरुवाच मेरुसंस्था महेशाना दैत्यः पुरा निराधारेषु संस्थास्ते पुरेषु गणपं व्ययुः तान् गृहीतुं न शक्ताश्च भवन्दे केऽपि शक्रयः तेषां मार्गं प्रवक्ष्यामि संशयेच्छेदनायवः देवाश्च त्रिविधा प्रोक्तास्तत्वाकारश्च शक्रयः तथा कर्म मया शास्त्रे देहरूपानसंशयः दिव्यन्ति सर्वभावेषु तेन देवाः प्रकीर्तिताः देवत्वं त्रिविधं तेषु ज्ञातव्यं वेदवादिभिः शताश्वमेधयज्ञानां करुतेन्द्रो भवदिप्रियाः। तिष्ठन्ति कर्मजा देवास्तादृशा काञ्चनाचले मन्दारादिषु सर्वत्र नगराणि दिवौकसां ताञ्जयन्ति समर्थाश्चासुरादयो न संशयः ब्रह्मणो दिवसान् देते दे लयं गच्छन्ति यज्ञानां फलं भुक्त्वा न संशयः mm. पुनर्जन्मधरा सर्वे भवन्ति नरजादिषु कुर्वदे यादृशं कर्म लभन्ते तादृशं फलम् अन्ये कर्म देवा व्याप्यते दे संस्थिताः पराः कुर्वते स्वाधिकारांश्च सदा कर्मपरायणाः जढराग्निस्तदा बाह्याग्निरित्यादिवौकसाम् अधिकाराः समाख्यादयमस्य यादनादयः दैत्या दर्शयितुं शक्तास्तान् भवन्ति न कर्मणा सदाधिकारसंयुक्तां तान् देवान् प्रवदन्ति च योगबलेन योगीशास्तान् देवां चालयन्ति च नान्यबलेन देवेशाश्चलन्ति स्वाधिकारिणः ब्रह्मणो दिवसान्ते तेन मृत्युं देवसत्तमाः लभन्ते वै निराधाराकर्मरूपप्रधारकाः महालये लयम् देवा गच्छन्त्यत्र न संशयः स लोकपरिवारास्ते पुनर्देहधरामदाः मृत्युलोके नराः सर्वे भवन्ते कर्मयन्त्रिताः यादृशम् कुर्वदे कर्म लभदे तादृशम् फलम् तत्वरूपा महादेव्यो देवा वेदे प्रकीर्तिताः ते तत्त्वय विश्वमानन्ताद् भावयन्ति चरा चराचरम् सर्वरूपकाः। ब्रह्माकारस्वभावेन तिष्ठन्ति जगदीश्वराः महाप्रलयवेलायाम् स्वविहारं समाप्यते योगनिद्रां प्रकुर्वन्ति योगाकारा विशेषतः पुनः क्रीडन्ति सृष्ट्वा च ब्रह्माण्डं देवनायकाः न तान् योगबलेनैव समो दर्शयितुं भवेद योगोऽयं द्विविधप्रोक्तशास्त्रेषु विबुधोत्तमैः वायुसाधनजश्चैकः प्राणायामेन लभ्यते तेन योगेन तत्त्वस्ता देवास्तद्वशवर्तिनः न भवन्ति कदा देव्यो ज्ञातव्यं शास्त्रमार्गदः सम्प्रज्ञादा सम्प्रज्ञादमयो योगः प्रकीर्तितः द्वितीयो भ्रमभूदाख्यो योगिभिः साध्यते सदा तेन योगबलेनैव ताञ्जयन्ति सुरान्नराः साध्याः सर्वे भवन्त्येव देवास्तद्वशवर्धिनः यं यम यमिच्छति योगीन्द्रस्तं तं कुर्वन्ति देवपाः प्रारब्धं चालयन्त्येव योगी वश्य यदा तेषां विहारेषु संसक्ता योगिनो भवन् योगभ्रष्टा भवन्त्येव जन्ममृत्युपरायणाः योगिनां योगभावेन भयं गच्छन्ति देवदाः तत्त्वरूपा न वेदवाददः कर्मैकं त्रिविधत्तानामेकैकाश्रितरूपिणां सेवनाद्भञ्जनात् तस्य द्वन्द्वयुक्ता भवन्ति ते अधुना प्रकृतं देव्यशृणुध्वं त्वेकचेदसः अवतारचरित्रं तु विकटस्य महात्मनः प्रद्रष्टुं स कदाचित्तम् विधिः क्षेत्रे मयूरके समाययौ सतं दृष्ट्वा मोकयुक्तो बभूवः विचारमकरो चित्ते शिवपुत्रोऽयमुच्यते अस्मै न नमनं कार्यं मया ज्येष्ठेन शक्रयः अयं गणेश्वरसाक्षात् संशयः परीक्षां गणराजस्य कृत्वा पश्चान्नमाम्यहम् एवं विचार्य ब्रह्माण्डं शिवशक्तिसमन्वितम् अन्धर्धाय स्थितो ब्रह्मा गुप्तरूपेण सर्वगः मयूरेश्यस्ततस्तच्च ज्ञात्वा चराचरं जगद निर्म ब्रह्मदेवस्थं जगाम शरणं पुनः तदश्वासेन विघ्नेशो ब्रह्मणं स्वोदरेण यद् तत्रानन्दाण्डकं दृष्ट्वा बभ्राम यत्र तत्र सः गते वर्षसहस्रे च ब्रह्माणं श्वासवायुना बहिर्निष्कासयामास मयूरेशो महायशाः बहिरागत्य वेथा सक्षणमेकं ददर्शः ततो दिविस्मितो भूत्वा पुनस्तं प्रणतो भवत स्तुत्वा तं स जगामैव स्वस्थलं हर्षसंयुतः मयूरक्षेत्रे तदा विस्थिता ब्रह्मकमण्डलुः एवं विधेर्मदं हत्वा मयूरेशो जगत्स्रष्टा भक्तेभ्यः सर्वदायकः तद कदाचिद्भाद्री सा चतुर्धी शुक्लपक्षगा समागता च तस्यां ते मृण्मयीं चक्रुरा धृताः स्वे स्वे गृहे तु सर्वे ते गणगणेश्वरं कृत्वा पूजयामासुरादराद मयूरेश स्वयं चक्रे मूर्तिं शुन्दादिचिह्नितां सम्पूज्या नम्यतुष्टावकृत्वा करपुटं पुरः मयूरेश उवाच नमस्ते गणनाथाय सर्वविघ्नविदारिणे भक्तानां दृष्टरूपेभ्यो विघ्नदात्रे नमो नमः ब्रह्मणां पदये तुभ्यं सर्वसिद्धिप्रदायिने अमेय माययायुक्ताय नमो धुण्डये नमः वक्रतुण्डाय नाशकार परात्मने। लम्बोदराय सर्वेषां जढरस्ताय ते नमः चिन्तामणिस्वरूपाय पञ्चचित्तप्रधारिणे हेरम्भाय परेशानां दीनानां बीजरूपिणे योगेशाय सदा शान्तिदात्रे शान्तिमयाय च शान्तिनां शान्तिरूपाय गणेशाय नमो नमः ज्येष्ठराजाय जेस्त ज्येष्ठानां पूज्याय विकटाय ते ज्येष्ठेभ्यः पददात्रे वैमात्रे पित्रे नमो नमः अनादये च सर्वेषामादिरूपाय विघ्नपविघ्नानां विघ्नरूपाय सर्वसतात्मने नमः स्वानन्दवासिने तुभ्यं संयोगायोगमूर्तये सर्वपूज्याय भक्तेभ्यो भक्तिधात्रे नमो नमः महोदराय भीमाय पापिनां दण्डधारिणे निरतेभ्यस्तु सुखदाय नमो नमः मयूरवाहनायैव मयूरेश्वर ते नमः आखुवाहाय सर्वेश परात्पराय वै नमः किम् स्तौमि त्वाम् गणाधीशयोगाकारस्वरूपिणम् शिवादयो न संस्तोतुम् समर्था वेदमुख्यकाः रक्षनस्ते सदा दासान् देहि भक्त्रिं त्वदीयकां यया मायानबाध्यदे बुद्धिशते नमो नमः एवं स्तुत्वा मयूरेशं मयूरेशो नदो भवद पूजाविधिं समाप्यैव भक्तियुक्तो बभूवः एवं शिवादयः सर्वे पुपूजोर्गणनायकं मुनयश्चैव सर्वेश्वं मृन्मूर्तिस्थं विशेषतः एतस्मिन्नन्तरे तत्र विश्वदेवो महायशाः समाययौ च तीर्थानि भ्रममाणो यदृच्छया एकनिष्ठतया सोऽपि नारायणपरायणः पुपूजनित्यमानन्तात् शेषशायिनमादराद अव्यासदगदि सोऽपि तपसा दग्धगिल्बिषः गत्वा समुद्रमध्यस्तं तं पुपुजनार्दनं पश्चाज्जलादिकं विप्रो बुभुजे भक्तिसंयुधः अत्यन्तभक्तियोगेन गणेशे योग्यतां गतः मायया च मयूरेशस्तं ज्ञात्वा शेषशायिनः ज्ञानं सं चादयामास विश्वदेवस्य संस्मृतिं विश्वदेवस्य नित्यं तु बुद्धिमोहेन विघ्नपः अकारयत्तद्योगेशो विस्मृतं योगमायया आगत्य विश्वदेवस्तु पार्वतीं सर्वभाविनीम् अयाचतस भिक्षां तां सा ददौ पायसाधिकम् अपोशनं स कृत्वा च सस्मारशेषशायिनं महादुःखयुतस्तत्र संस्थितो भूद्विजोत्तमः ततस्थम् गणराजस्तु खेदयुक्तम् विशेषतः दृष्ट्वा नारायणो भूत्वा सान्द्वयामासभावतः चतुर्वर्षात्मको मूर्तिम् सपुपूजपराशरः मृण्मयैरुपचारैस्ताम् दर्शयामास भक्त्रिदः गणेशाख्यम् ददज्ञानम् विश्वदेवाय शान्ति गाणपत्यस्वभावेन स न नाम गुणेश्वरम् विश्वदेवोयौ स्थानं स्वकीयं शान्तिसंयुतः एकनिष्ठतया विप्रो मयूरेशं तमाभजद एवं विस्मृतभावेन ज्ञानसङ्ख्यादनेन च विष्णोः पराक्रमम् हत्वा चिक्रीडद्विजबालकैः ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषद्दि श्रीमन्मौद्गले महापुराणे षष्ठे खण्डे विकटचरिते विष्ण्वादिपराधीनतादर्शनं नाम चत्वारिंशत्तमोऽध्यायः ओम् oh.